अथ चत सर्ग सजिपुरी श्रेष्ठा कामी विक्रेण महातेज हनुमा क्तमारेण महवीय प्राकार मव पु प्लुवे निशि ला महासत्वेशंजर प्रवश्य नगरी कपराजहित चक्रेऽथ पादम् सव्यम् च शत्रूणाम् सतु मूर्धनी प्रविष्टः सत्त्वसम्पन्नो निशायाम् मारुतात्मजः समः पथमास्थाय मुक्तपुष्पविराजितम् ततस्तुताम् पुरीम् लङ्काम् रम्यामभिययौ कपिः हसितोत्कृष्टनिनदैस्तूर्यघोष पुरस्कृतैः वज्राङ्कुशनिकाषैश्च वज्रजालविभूषितैः गृहमेधैः पुरी रम्य बभासेद्यौरिवाम्बुदैः प्रज्ज्वाल तदालङ्कारक्षो गणगृहैः शुभैः सिताभ्रसदृशैश्चित्रैः पद्मस्वस्तिकसंस्थितैः वर्धमानगृहैश्चापि सर्वतः सु विभूषितैः ताम् चित्रमाल्याभरणाम् कपिराजहितङ्करः राघवार्थे चरन् श्रीमान् ददर्श भवनाद्भवनम् गच्छम् ददर्शकपिकुञ्जरः विविधाकृतिरूपाणि भवनानि ततस्ततः शुश्रावरुचिरम् गीतम् त्रिस्थानस्वरभूषितम् स्त्रीणाम् मदनविद्धानाम् दिवि चाप्सरसामिव शुश्रावकाञ्चीनिनदम् नूपुराणाम् च निःस्वनम् सोपाननिनदांश्चापि आस्फोटितनिनादांश्च क्ेडितांश्च ततस्ततः शुश्राव जपताम् तत्र मन्त्रान् रक्षो गृहेषु वै स्वाध्यायनिरतांश्चैव यातु धानाम् ददर्शसः रावणस्तव गर्जतो राक्षसानपि राजमार्गम् समावृत्य स्थितम् रक्षोगणम् ददर्श मध्य मे गुल्मे राक्षसस्य चरान् बहून् दीक्षिताञ्जिलान्मुण्डान् गोजिनाम् बरवाससः दर्भमुष्टिप्रहरणानग्निकुण्डायुधांस्तथा कूटमुद्गरपाणींश्च दण्डायुधरानपि एकाक्ष्यानेकवर्णांश्च लम्बोदर पयोधरान् करालान् भुग्नवक्त्रांश्च विकटान् वामनांस्तथा धन्विनः खड्गिनश्चैव शतघ्नीमुसलायुधान् परिगोत्तमहस्तांश्च विचित्र कवचोज्ज्वलान् नातिस्थूलान्नातिकृशान्नातिदीर्घाति ह्रस्वकान् नातिगौरान्नातिकृष्णान्नातिकुब्जान्न ना वामनान् विरूपान् बहुरूपांश्च सुरूपांश्च सुवर्चसः पताकिनश्च ध्वजिनो ददर्श शक्तिवृक्षायुधांश्चैव पट्टिशासनिधारिणः क्षेपणीपाशहस्तांश्च ददर्शसमहागपिः स्रग्विणस्त्वनुलिप्तांश्च वराभरणभूषितान् नानावेशसमायुक्तान्यथा स्वैरचरान् बहून् तीक्ष्णशूलधरांश्चैव वज्रिणश्च महाबलान् शतसाहस्रमव्यग्रमारक्षम् मध्यमम् कपिः रक्षोऽधिपतिनिर्दिष्टम् ददर्शान्तः पुराग्रतः स ददा दृष्ट्वा महाहाटकतोरणम् राक्षसेन्द्रस्य विख्यातमद्रिमूर्ध्नि प्रतिष्ठितम् पुण्डरीकावतम् साभिः परिखाभिः समावृतम् प्राकारावृतमत्यन्तम् ददर्श स महागपिः त्रिविष्टपनिभम् दिव्यम् वाजिह्रेषित सङ्घुष्टम् नादितम् भूषणैस्तथा रथैर्यानैर्विमानैश्च तथा हयगजैः शुभैः वारणैश्च चतुर्दन्तैः श्वेताभ्रणिचयोपमैः भूषितैरुचिरद्वारम् मत्तैश्च मृगपक्षिभिः रक्षितम् सुमहावीर्यैर्यातुधानैः सहस्रशः राक्षसाधिपतेर्गुप्तमाविवेशगृहम् कपिः स हेमजाम्बूनद चक्रवालम् महार्हमुक्ता मणिभूषितान्तम् परार्ध्यकाला गुरुचन्दनार्हम् स रावणान्तः पुरमाविवेश इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे चतुर्थः सर्गः